अस्तु सर्वेषां स्वागतम् अस्माकं प्रगतचिन्तनवर्गे अद्यतनविषयः अस्ति प्रेरणार्थे निट् इति वयं तु पूर्वमेव तस्मिन् विषये पठितवन्तः इदानीम् अत्र केवलं पुनः स्मरणमेव वा कुर्मः वयं जानीमः अत्र निट् प्रत्ययः मुख्यतः अर्थद्वये भवति स्वार्थे अपि च प्रेरणार्थे एकनिमिष अन्य कोऽपि अस्ति स्वार्थे अपि प्रेरणार्थे अपि चुरादिगणे निष्प्रत्ययः स्वार्थे विहितः भवति तत्र चोरयति क्षालयति इत्यादिनि रूपाणि प्रेरणार्थे अपि निज्प्रत्ययः विहितः भवति द्वयोः भेदः कः इति चेत् स्वार्थे निच्प्रत्ययस्य कोऽपि विशिष्ट अर्थः नास्ति तत्र केवलं धातोः अर्थपोषणमेव करोति यदि चोरयती वे तोर स्वयं कार्य कौन की परंतु प्रेरणा अर्तद्व येरणा निष्कृत विहि तयजकर्ता प्रयोज्यकर्ता प्रयोजकर्ता तर्तृसा हेतुसा अस्ट सेरय प्रयोज्यकर्ता कार्यं करोति इति अत्र प्रेरणार्थे निच् इति व्यवस्था अपि चत् अत्र निच्प्रत्ययः तिङपि नास्ति शित् अपि नास्ति अतः निच्प्रत्ययः अर्धदातुकप्रत्ययः तर्हि इदानीं वयम् आर्धदातुकप्रक्रियायां प्रवेशं कुर्मः तर्हि अत्र बालसुब्रह्मण्यं महोदय भवान् वदति वा अत्र आर्धदातुकप्रक्रिया अर्धदातुकलकारः प्रथमम् आददतुक लकारः इत्युक्ते किम् आददतुः इति चेत् लिङ् लोट एतानि विहाय अपराणि समीचीनम् अपि च अत्र प्रसंगे सम्यक्तया न श्रूयते मम दोषः वा किञ्चित् उच्चैः वदतु क्षम्यतां महोदय प्रश्नम् इति आर्द्रदातुकलाकारः इति उत्तरं लट् लङ् लोट् इति इति लकाराणि विहाय अपरस्मिन् विशिष्टषड् लकाररूपाणि आर्धदातुकलकार सम्यक् इदानीम् अत्र आर्धधातुकलकारेषु अत्र अन्य किमपि विशिष्टकार्यमस्ति वा शुकवनमहोदय अर्धधातुकलकारेषु सार्वधातुकलकारः अर्धधातुकलकारः इति पाणिनिनिमहर्षिणा किमपि साक्षात् न दत्तं किन्तु यत्र प्रत्ययः साक्षात् धातुः प्रत्ययं साक्षात् पश्यति तादृशलकाराः सार्वधातुकलकाराः इति कथ्यते अन्ये लकाराः तु आर्धधातुकलकाराः सार्वधातुकलकारेषु गणविकरणप्रत्याः विधीयन्ते अतः गणविकरण धातुः कस्मिन् गणे अस्ति इति चिन्तनस्य आवश्यकता अस्ति किन्तु आर्धधातुकलकारेषु तादृशचिन्तनस्य आवश्यकता एव नास्ति केवलं तत्र लकार निमित्तीकृत्य किमपि प्रत्ययः विधीयते चेत् यथा उदाहरणार्थं इति इत्यस्य प्रसङ्गे स्यात्सि लृ लुटोः इति सूत्रेण स्या इति लकारनिमित्तीकृत्य प्रत्ययः आगच्छति तादृश विधिः अस्ति चेत् तदेव योजनीयं भवति किन्तु गण चिन् गणविकरणप्रत्ययस्य धातुः कस्मिन् गणे अस्ति इत्यस्य इत्यस्मिन् विषये किमपि चिन्तनं चिन्तनस्य आवश्यकता नास्ति आर्दधातुकलकारेषु हा सम्यक् अपि च अत्र आर्दधातुकस्य इड् वलादेः इति सूत्रेण आर्धधातुक प्रत्ययः परे अस्ति चेत् तत्र इडागमः भवति वा न वा इति अपि चिन्तनं भवेत् तादृशचिन्तनं सार्वधातुकलकारेषु सार्वधातुकप्रत्ययेषु प्रत्यये परे न भवति न आवश्यकम् आर्धधातुकस्य इट् बलादेः इति सूत्रं तत्र बलादि आर्धधातुकप्रत्ययः परे अस्ति चेत् तत्र अपि च धातुः सेट् अस्ति चेत् तत्र इडागमः करणीयः भवति तत्र वलादि इत्युक्ते प्रायः निरनुबन्धरूपं प्रायः इति नास्ति स्वराः न भवेत् अपि च यकारादि न भवेत् चेत् ते सर्वे वलादि प्रत्याः भवन्ति सम्यक् सम्यक् अत्र निजन्तप्रसङ्गे त्ययः निजन्त निच् इति प्रत्ययः तत्र निरनुबन्धरूपं भवति केवलं ह्रस्व इकारः तु वलादि प्रत्याहारे नास्ति इति कृत्वा निच् प्रत्ययः ईड् अननुकूलप्रत्ययः अस्ति अतः अत्र ईड् इत्यस्य चिन्तनं न भवत्येव अस्तु सम्यक् <सफ़िया> चिन्ता नास्ति अत्र प्रश्नः अस्ति यदि णिच् इति पश्यामः सः प्रत्ययः तु वार्ता सः प्रत्ययस्य सः प्रत्ययः तु वलादिः खलु सो ततः निरनुबन्धरूपं दृष्ट्वा एव वलादिः वा न वा इति चिन्तनीयं वा तदेव अत्र व्याकरणलोके सर्वदा इत् इत्संज्ञकवर्णान् त्यक्त्वा एव वयं पश्यामः तत्र नियमस्य प्रसक्तिः अस्ति वा न अत्रापि तथैव अत्र इत्संज्ञकवर्ण वर्णौ तत्र नकारः अपि च चकारः त्यक्त्वा तदनन्तरं तत्र बलादिः अस्ति न वा इति द्रष्टव्यम् स्पष्टं वा आर्ददातुकप्रत्यये सम्प्रसारणकार्यम् इति तस्य चिन्तनमपि तत्र भवति खलु आर्दधातुकतैः अत्र कुत्र भवति सम्प्रसारणकार्यं तत्र निमित्तं किं सम्प्रसारणस्य ईगणः सम्प्रसारणमिति भवति परन्तु तत्र तु आवल्यां ये ये, ये, ये दातवः सन्ति न अत्र अत्र न केवलं दातवः अपि च तत्र प्रत्ययस्य स्वभावः तत्र प्रत्ययः कीदृशः भवेत् तत्र कित् प्रत्ययः अथवा नित् प्रत्ययः अस्ति चेत् एव कार्यं तत्र ग्रहीज्या वै यदि व्यष्टि वृच्छति पृच्छति वृजतीनां नितिः च इति अस्ति तत्र तस्मिन् सूत्रे किति निति इति निमित्तं तत्र किति इति अनुवृत्तिः अस्ति इति कृत्वा किति निति इति निमित्तं तस् तत्र तस्मिन् सूत्रे अपि च वचिस्वपि अजादीनां किति तस्मिन् सूत्रे किति इति निमित्तं तर्हि सम्प्रसारणकार्यं तत्र एव भवति यत्र प्रत्ययः कित् अथवा नित् तर्हि अत्र निच् प्रत्ययः कित् अपि नास्ति नित् अपि नास्ति अत्र णित् अस्ति मू मूर्धनेन अकारः णित् तर्हि अत्र सम्प्रसारणकार्यस्य प्रसक्तिः नास्ति मम प्रायः मया सम्यक् न अवगतः इति उच्यते अहं चिन्तितवान् सार्वदातक क्षमताम् आर्दातक चिन्तनं यदा भवति तदानीमेव सम्प्रसारणस्य चिन्तनं भवति इति अहं चिन्तितवान् तथा न इति भवति उक्तवती किमर्थं चेत् <laughs> किञ्चित् <laughs> एव कार्यं अत्र प्रिच् इति धातुः अस्ति तत्र तुदादिगणे प्रच् इति धातुः तुदादिगणे तत्र सम्प्रसारणं भवति तर्हि सार्वधातुकलकारः भवतु अर्धधातुकलकारः भवतु उभयत्र सम्प्रसारणकार्यं भवति धन्यवादाः अस्तु इदानीम् अत्र वा इदानीं वयं जानीमः अत्र इडागमः न भवति अपि च अत्र प्रेरणार्थके निच् अत्र स्वतन्त्रकर्ता इति अस्ति तत्र केवलम् एकं वाक्यमेव वदामि अनन्तरं तत्र बहु किमपि अस्ति गृहपाठरूपेण पठितुं शक्नुवन्ति अत्र कस्मिन्नपि वाक्ये यः वक्तुः स्व इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति इति अस्ति तत्र अनन्तरं अग्रे गच्छामः चेत् तत्र प्रयो तत् प्रयोजको हेतुश्च इति इति अपि अस्ति तत्र प्रयोजककर्ता तस्य कर्तृसंज्ञापि भवति हेतुसंज्ञापि भवति तर्हि इदानीम् अत्र प्रेरणार्थे निज् इति एकं वाक्यं स्वीकुर्मः चेत् अत्र पिता पुत्रेण कार्यं कारयति इति वाक्यं तत्र अत्र कर्तृ कर्तृद्वयम् अस्ति पिता इति प्रयोजककर्ता अपि च पुत्रः इति प्रयोज्यकर्ता पिता किं करोति इति चेत् पिता एव प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा अपि अस्ति पुत्रः कार्यं करोति तर्हि पिता पुत्रेण कार्यं कारयति इति वाक्यं तत्र पुत्रः इति प्रयोज्यकर्तुः निजन्तप्रसङ्गे सामान्यतया तस्य तृतीयाविभक्तिः भवति परन्तु अपवादाः सन्ति तत्र विशिष्टसूत्राणि अपि सन्ति इदानीं तस्य विषय विषये चिन्ता नास्ति तर्हि अत्र निच् इति प्रत्ययः धातुतः अपि विहितः भवति कुत्रचित् प्रातिपदिकादपि विहितः भवति प्रातिपदिकात् कुत्र विहितः भवति इति वयम् अग्रे सुबन्तप्रसङ्गे द्रक्ष्यामः इदानीं धातुतः एकम् चिरादिगणगणे तत्र विहितः भवति अपि च तत्र प्रेरणार्थे निचि अत्र सूत्रमस्ति हेतुमति च इदानीम् अत्र अनन्तकृष्णमहोदय भवान् पठति केवलं प्रथमवाक्यद्वयं हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्निच् स्यात् निच् क्रियार्थ क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोज क्रियायाः हेतुः आधारतया अस्य आसीत् आसीदिति हेतुमान् मतुप्रत्ययः प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमती व्यापारः इति हे हे व्यापार प्रेषणादिक्रिया स च व्यापारः हेतुमान् अनुवृत्तिसहितसूत्रं हेतुमती च धातोः निच्प्रत्ययः परश्च इति अत्र पूर्वमपि भवती उक्तवती हेतु हेतुः इति सङ्ख्या कर्तुः कर्ता इति सङ्ख्या सङ्ख्याद्वयं प्रयोजककर्तुः भवति इति उक्तवती सो सा च प्रयोजकव्यापारः व्यापारः इति यदा भवति तस्मिन् हेतुः इति प्रयोजककर्तुः सङ्ख्या सं, भवति तत् तादृशव्यापारः ततः सः हेतुमान् भवति तस्मिन् अवसरे णिच् प्रत्ययः भवति इति आ, अस्तु इदानीम् अग्रे बहु किमपि तत्र किमपि टङ्कनदोषः अस्ति वा आधारतया अस्यास्ति इति हेतुमान इति वा आधारता अस्यास्ति इति हेतुमान इति वा मम अपि <laughs> प्रश्नः प्रायः आधारता भवेत् आधारता हा अस्ति अस्तु आम् तर्हि ततः अग्रे अत्र सनाद्यन्तधातवः इति अस्ति तदेकवारं अत्र चन्द्रशेखरमहोदय भवान् पठति वा सनाद्यन्तदातवः सन् इत्यस्य सन् इत्यारभ्य कर्म कमेरिणिङ्ग् इत्यस्य अणिङ्ग् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात् सन्नादौ येषां ते सनादयः सनादयः हा, अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तम् इति धातवः प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं सनाद्यन्तदातवः इति इत्युक्ते सनादि सनादिप्रत्ययाः येषाम् अन्ते सन्ति ते समाध्यन्ताः ते सर्वे दात धातुसंय्या इति प्राप्यते प्राप्यन्ते भूवादेव दातवः अपि च समाध्यन्ता दातवः अस्तु अस्तु अग्रे अत्र निच् निष्प्रतेः त्रिप्रकारकः इति तत् त्यजामः वयं तु एव अग्रे अत्र प्रेरणार्थे निच् तिङन्तनिष्पादनप्रक्रिया इति अस्ति आ, लक्ष्मी भगिनी भव, ये सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे ते सर्वे प्रेरणार्थे नियन्तक्रियायाम् अपि प्रयुक्ताः अत्रापि तिङन्तरूपस्य साधनार्थं सोपानत्रयम् अस्ति धातुः योगः णिच्प्रत्ययः धातुतः णिच् प्रत्ययस्य योजनेन निजिन्तधातुः आगच्छति निजन्तधातुः योगः शप् विकरणप्रत्ययः इत्युक्ते निजन्तधातुतः श शप् विकरणप्रत्ययं योजयामश्चेत् तदा अङ्गम् इति रु आगच्छति अङ्गम् इति वदामः तिङ्प्रत्ययं निमित्तं मत्वा अङ्गं योगः तिङ्प्रत्ययः तदा तिङन्तरूपमागच्छति अत्र भगिनि उदाहरणं स्वीकृत्य वदामि वा वदतु अत्र यदि पाठ्यति धातुं पाठ्यति धातुं आ, आ, स्वीकृत्य अत्र पठ्ययोगः निच् प्रत्ययं योजयामश्चेत् अत्र पाठी इति निजन्तधातुः प्रथमतया आगच्छति अत उपधायाः अनन्तरं निजन्तधातुः पाठी आगच्छति पाठीयोगः शप् इत्यस्मिन् तत्र षकारपकारयोः अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते अतः पाठी योगः अकारः तथा पाठे इति अङ्गमागच्छति तत्र अन्यत् कार्यमपि अस्ति शप विकरणप्रत्ययं योजनेन तत्र सार्वधातुकार्धधातुकयोः का इति सूत्रेण गुणकार्यं भवति तथा uh, तत्र uh, गुणकार्यं भूत्वा पाठे इति रूपम् uh, आगच्छति अनन्तरं पाठे तत्र चोयवायावः इत्यनेन अयादेशः अपि भवति अनन्तरं पाठै इति रूपम् आगच्छति अनन्तरं तिङ् प्रत्ययः इत्युक्ते ति इति पाठयति इति तिङन्तरूपम् निजन्तरूपमागच्छति भगिनि तत्र यत्र शप् योजयामः तत्र पाठय्य अकारः अन्ते भवति खलु पाठयिनी पाठय अनन्तरं तिङ्कृत्यः पाठयति अस्तु धन्यवादः अद्य अग्रे अत्र हेमा भगिनी अत्र निजन्तप्रसङ्गे अत्र प्रमुख त्रीणि सूत्राणि सन्ति एकवारं पठति वा तत् वाक्यम् अपि च अनुवृत्तिः महोदय तस्य प्राक् अत्र वयं पूर्वम् उक्तवन्तः कुत्र शप् भवति इति सार्वधातुककर्तृत्वे शप् भवति इति इदानीं कर्तर्तके अस्ति अपि तदनन्तरं सार्वधातुकप्रत्ययः अपि अस्ति परन्तु धातुः इदानीं आतिदेशिकधातुः अस्ति किल तेन किं वक्तुमिच्छति न तर्हि तत्र औपदेशिकधातुः भवतु इति कोऽपि नियमः नास्ति धातुः केवलं सार्वदात्कप्रत्ययं साक्षात् प्रत्ययः साक्षात् दृश्यते इत्युक्ते तत्र कर्तरिशब् भवति इति किल अत्र हा सम्यक् सम्यक् भगिनी अत्र धातुः धातोः इति अधिकारः अस्ति तृतीयध्यये यत्र तिङ्क्षित् तिंशित् सार्वधातुकम् इति अस्ति अत्र प्रत्ययः तर्हि धातुः केवलं धातुः एव तत्र औपदेशिकधातुः अतिदेशिकदातुः इति नास्ति तर्हि यः कोऽपि धातुः भव भवतु तत्र तस्मात् तिङ्प्रत्ययः विहित चेत् कर्त्रार्थक कर्तृश्याप्तु आगच्छति एव अस्तु सनात्यन्तदातवः अपि तृतीयाध्याये एव अस्ति धातोः विहितः इति कृत्वा तत्रापि तस्य अस्तु तत् तत् तस्य धातुसंज्ञा भवति सनात्यन्तदातव तर्हि अत्र प्रथमकार्यम् अस्ति अचोणिति इति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नितिणिति प्रत्यये परि अनुवृत्तिसहितसूत्रम् अस्ति अचः अङ्गस्य वृद्धिः इति तर्हि यदि अजन्तधातुः अस्ति तर्हि तादृश अजन्तधातोः अङ्गस्य णिक्त्वा णित्वा प्रत्ययः परे अस्ति चेत् तत्र वृद्धिकार्यं भवति इति सूत्रं वदति यथा उदाहरणार्थम् अत्र णि इति धातुः अस्ति नि योगः प्रथमं निच् विधीयते तत्र अनुबन्धलोपानन्तरम् इ एव अवशिष्यते अजन्त अजन्तः इति कृत्वा तत्र अचोणितिकारणेन तत्र वृद्धि भूत नई नय योगयाव नाय ना योग इ नायी नाय नाय नूत धा तदनतर अन कार्यां नायती रूप साधना द्वित सूत्रमस्त अत उपधाया तरी उपधायां अतः वृद्धि नति प्रत्यंग अत वृद्धि ति पूर्वतनसूत्रे केवलं धातुः अन्तिमवर्णस्य एव परिशीलनम् अभवत् इदानीम् उपधास्थित केवलं ह्रस्व आकारस्य एव अस्य सूत्रस्य प्रसक्तिः यत्र उपधायां ह्रस्व आकारः अस्ति नेतिनीतिप्रत्यये परे तत्रापि वृद्धिः भवति इति अस्य सूत्रस्य सारांशः उदाहरणार्थम् अत्र अत्र पट् इति स्वीकुर्मः तत्र हलन्तधातुः अस्ति उपधायां ह्रस्वाकारः अस्ति पट् योगः णिच् इकारः पट् इ वृद्धिः भूत्वा पाट् इति भवति पाट् योगः इ पाठि तदनन्तरं सदिकार्यं भूत्वा पाठय पा शप् विधीयते पाठै पाठै पाठय पाठयति रूपाणि तृतीयमस्ति पुगन्तलघुपदस्य च इदानीम् उपधायां केवलं ह्रस्वाकारः दृष्टवन्तः उपधायां यदि इक् वर्णाः सन्ति चेत् अस्मिन् सूत्र अस्य सूत्रस्य प्रसक्तिः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अंगस्य लघुपदस्य च इकः गुणः भवति पुकन्ते यस्य तत् पुगन्तं लग्धि उपदा अनुमतिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः तर्हि अत्र सार्वधातुक वा आर्धधातुकप्रत्ययः वा पदे भवति तर्हि यदि उपधायाम् इक्वर्णः अस्ति तादृश इक्वर्णस्य गुणः भवति अपि च पुगागम पुक् यदि अस्ति तदापि भवति इति अस्ति लिक् इति सुधादिगणस्य दृष्टान्तः अस्ति लिक् योगः निच् उपधायाम् इक् इक् वर्णः अस्ति अतः अत्र गुणः भूत्वा लेक् इति भवति निच् योजनेन लेखि इति नूतनसनाद्यन्तदातवः इति नूतनदातुः तदनन्तरं सन्धिकार्यं भूत्वा शपः योजयित्वा तत्र लेखयति इति रूपम् धन्यवादः तत्र सम्यक् ह्रस्व ह्रस्वयिक् भवेत् स्यात् हा सत्यं सत्यं महोदय बिन्दुः एव ह्रस्तनीय अस्तु अग्रे अत्र पुष्पाभगिनी भवति पठितुमिच्छति वा अत्र शब्दमस्ति एकनिमिषं भगिनि एकनिमिषम् अन्ये पठतु न अन्ये गृहे गच्छामि गृहे अन्य अन्य प्रकोष्ठे गच्छति वा हा हा हा एक एकनिमिषम् अत्र मम पति अस्तु एकांश अत्र अस्ति हा चुरादिगणे प्रेरणार्थे वैशिष्ट्य वैशिष्ट्यं चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव चुर्योगः णिच् चोरी यद् तदा प्रेरणार्थे विवक्षा भवति चेत् द्वितीयः णिच् प्रत्ययः विधीयते चोरीयोगः णिच् अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदं नेरन् नेरणिति यस्य सार्ध आर्धदात् यस्य आर्धधातुकप्रत्ययस्य नास्ति तस्मात् पूर्वं णिप्रत्ययस्य लोपो भवति प्रथमतया निप्रत्ययस्य लोपः भवति अस्तु अनुवृत्तिसहितसूत्रं णेः लोपः अनिति आर्धधातुके अस्तु णिच्प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमः न भव न कदापि भवति अनेन चुरादिगणे कश्चन निजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः णिच् प्रत्ययः विधीयते तदा प्रथमणिचः स्वार्थिकणिचः लोपो भवति अतः एकस्मिन् धातौ णिच् केवलम् एकैव वारं सम्भवति द्वितीयवारं णिचः विधानं भवति किन्तु नेरनि इत्यनेन प्रथमस्य लोपो अतः चुरादिगणे वार्तिक णिचः प्रेरणार्थ प्रेरणार्थक नचः समानम् अस्तु भगिनि समान एव अस्ति चुरादिगणे समान हा रूपं तर्हि इदानीम् अत्र चन्द्रशेखर धन्यवादः भगिनी इदानीं चन्द्रशेखरमहोदय भवान् अत्र चुर् इति धातुं स्वीकृत्य वदति वा अत्र किं भवति नेरनिटि यदि तत्र चुरादिगणे चोरि इति धातुः अस्ति यदा द्वितीयवारं निच् प्रेरेनार्थे निच् आगच्छति चेत् अत्र भवति तर्हि प्रेरणाते निच् चोरि इति धातुः निदन्तधातुः तदा णिच् इति आगच्छति चेत् नेरनिटि इति सूत्रेण पूर्वं यद् यः णिच् इकारः तद् लोपः भवति तदर्थं चोर् योगः णिच् इदानीं चोरि पुनः चोरि इति एकवारम् अत्र नेरनिटि इत्यस्य निमित्तं किं कथं कार्यं भवति इति वदति वा अस्तु नेरनिटि अत्र आर्द्रतुके अनिट् प्रत्ययः अस्ति चेत् आर्दधातुक अनिट् प्रत्ययः अस्ति चेत् णेः लोपः भवति नेः इत्युक्ते चोर, इदानीं चोर् योगः तत्र इकारः निट् अस्ति तद् अस्ति तदनन्तरं आर्द्रापक अनिट् प्रत्ययः अस्ति तदपि इनिच् अस्ति इदानीं तदर्थं त तन्निमित्तं प्रथम इकारः चोर् इकार चोर्योगः इकारः तत्तु लोपः भवति यतोहि तत्र अनिट् आर्दधातुकप्रत्ययः परे अस्ति इच्छति दत्तं चोरी इति पुनः भवति अस्तु धन्यवादः तर्हि इदानीम् अत्र यथा वयम् आर्ददातुकप्रक्रियां पश्यामः अत्रापि दातवः अजन्तदातवः अपि च हलन्तदातवः इति विभागद्वयं भवति ह अजन्तदातवः तत्र अकारान्तः आकारान्तः इकारान्तः इकारान्तः एवम् एवं रीत्या तत्र श्रेणीकरणं भवति अत्र अस्मिन् अजन्तदातवः अस्मिन् अकारान्तदातवः अस् अत्र अत्र नास्ति अत्र तत्र हलन्तधातुषु वयं तस्मिन् विषये द्र द्रक्ष्यामः अग्रे किमर्थं चेत् तत्र यत्र धातोः अन्ते ह्रस्व अकारः अस्ति अनुनासिकः नास्ति चेत् तत्र अतो लोपः इत्यनेन अन्तिमाकारस्य लोपः भवति यत्र आर्धधातुकप्रत्ययः परः अस्ति तदर्थं धातुः हलन्तः भवति इति कृत्वा तत्र हलन्तधातुषु वयं तस्मिन् विषये अत्र अजन्तधातूनां अस्ति अ प्रथम अस्त आकारात धातव वो जानी अत अज्तव सही चेत अछोयनिटी सूत्र से प्रमुख कार्यमस्ती अछोयनितिसक्ति बलंतवे तपद कर्ण अस्ती यदि उपदय ह्रस्वा अस्त तुपदाया प्रसक्तिपद लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः तर्हि इदानीम् अजन्तदातवः अकारान्तधातवः प्रथमम् अत्र पुगागमः बालसुब्रह्मण्यमहोदय भवान् अत्र सूत्रं पठति वा अर्ति ह्री व्लीक्ष्मात्रेण Uh, ी वीरिूनि क्ष्मायि तेभ्यः दातुभ्यः अपि च अपि च आकारान्तदातुभ्यः पुक् आगमः भवतिपत्ये परे uh, अनुभूतिसहितसोक्तम् अति ह्री वीरि यू इक्ष्मा यासाम् अंगाना पुग्नौ इति uh, उदाहरणरूपेण वदामि uh, वा महोदय उदाहरणरूपेण दा इति धातु निष्प्रत्य योजनेन दा परे भवति अतिः इति सूत्रेण तस्मात् योग योग निज अभिबन्धलोपवर्णः विकारः तस्मात् दा योगु योग इ धाति इति धातव रूपः तदनन्तरं धातुसंज्ञा हेचो यव यवः गुणः इत्यादि कार्यं कार्यात् परं योजनेन तदनन्तरं टि तस्य योजनेन धापयति इति अत्र सर्वत्र यदा हि निष्प्रत्ययः विहितः भवति सर्वत्र दातुः इदानीम् ईकारान्तः अस्ति तदनन्तरं तत्र अय अय इति एव आगच्छति इकारस्य तत्र अन्तिम इकारस्य इकारः गच्छति अनन्तरम् अय अय तत् सर्वत्र रूपाणि समानानि वदतु महोदय चन्द्रशेखरमहोदयः पठितुं शक्यते वा महोदय ध्वनिः तु बहु अस्तु इदानीम् अत्र शुकवान् महोदय भवान् अत्र धापयति इति धापि इति धातुः तर्हि अत्र लट्लकारे रूपाणि कथं भवन्ति हा तत्र केवलं रूपाणि एव वक्तव्यं वा केवलं रूपाणि धापयति इति धापयति धापयतः धी धापयसि धापयतः धापयथः धापयथ धापयामि धापयावः धापयामः लोट् अपि वदतु महोदय हा तस्मात् पूर्वम् एकः प्रश्नः भगिनि अत्र अस्मिन् सूत्रे अर्त्रिक् इति सूत्रे पुक् इति दत्तं पुक् कित् तस्य वैशिष्ट्यं किमपि अस्ति वा किमर्थं कुत्र आगच्छति आगमः कुत्र भवति कित् अस्ति चेत् तत्र आगमः तत्र कित् ङित् इति प्रायः तत्र गुणगुणः विषये किमपि अस्ति वा इति न पुक् हा हा हा तदेव वैशिष्ट्यम् अस्तु इदानीं लोट् रूपं भवति धापयतु मनसि भगिनि वदतु भगिनि लक्ष्मी भगिनी साहाय्यं करोतु हा सम्यक्तया न जानामि परन्तु धापयतु धापयतां धापयन्तु धापय मध्यमपुरुषे दापयतां धापयतां धापयता धापय दापयामि तत्र प्रथमपुरुषे दापयतात् अपि रूपं भवति अपि च तत्र एकवचन एकवचने प्रथमपुरुषे एकवचने अपि च एकवचने अपि दाप दापयतात् इत्यपि एकं रूपं भवति धन्यवादः अस्तु अग्रे अत्र लङ्लकारः अनन्तकृष्णमहोदय भवान् वक्तुमिच्छति वा उदा अदापयत् अदापयताम् अदापयन् अदा अदापयतःपयः अदा अदापय अदापयः इति भवति अदापयः अदापतम् अदापतयत अदापयत अदा अदापयत अदा अदा अदा अदा अदा, अदा अदा अदा अदापयम् अदापयाव अदापयाम अपि विदिर् लिङ्ग् अपि वदतु महोदय um, दापयेत् दापयेतां दापयेयुः तर्हि अत्र सामान्यतया तत्र निजन्तप्रसङ्गे धातवः उभयपदिनः भवन्ति तत्र अपवादः तु सन्ति परन्तु सामान्यतया उभयपदिनः भवन्ति यदि वयं सर्वत्र सामान्यतया परस्मैपदीरूपं स्वीकृत्य वाक्यं वदामः चेत् तत्र दोषः न भवति सामान्यतया तादृशनियमः अस्ति अस्तु अग्रे भगिनी सर्वे अपि परस्मैपदी एव वक्तुं शक्नो शक्नुमः न आत्मपदीन्ना सामान्यतया उभयपदिनः दातुः परस्मैपदी अपि दा आत्मनेपदी अपि भवति परन्तु केचन दातवः केवलं परस्मैपदिनः mm. तेषाम् आत्मनेपदीरूपं न भवति तर्हि mm. यदि यत्र कुत्रापि वयं परस्मैपदीरूपं स्वीकृत्य वदामः चेत् तत्र दोषः न भवति अस्तु mm. अग्रे अत्र एजन्तदातवः इति अस्ति तस्मात् आरभ्य पठामः अत्र हेम भगिनी पठति वा आम् भगिनि एजन्तदातवः सर्वे आकारान्तदातवः भवन्ति आदे च उपदेशे शिति उपदेशे एजन्तस्य धातोरात्वं न तु शिति अनुवृत्तिसङ्कसूत्रम् अस्ति एचः धातोः आत् उपदेशे अचिति तर्हि अत्र Hmm, उपदेशावस्थायाम् एजन्तदातवः ये सन्ति तत् तत्र आत् आत्वं भवति यत्र शित् प्रत्ययः परे न भवति तत्र निमित्तं नास्ति केवलं षित् न भवतु इत्येव आशयः तर्हि तत्र धातवः दत्तानि सन्ति यथा ग्लै ऐ इति तत्र आत्वं भूत्वा ग्ला भवति तथैव लैम्ला घ्यैध्या शोषा सोसा देवा छोछा इति अतः निकरणे एजण्टदातवः आकारान्तः एव इति अवगम्यताम् आकारान्तः इति कारणतः अत्र अर्तिहिरि व्लीरि नुयि क्ष्माया तां इत्यनेन पुगागमः भवति इति सामान्यनियमः तर्हि ग्लै इति धातुं स्वीकुर्मः प्रथमं निच् विधीयते सर्वत्र इति कृत्वा ग्लै योगः णिच् इति उपदेशे उपदे आदेशे उपदेशे शिपि कृत्वा तत्र एजन्तधातोः आत्मं भूत्वा ग्ला इति भवति ग्ला योगः इदानीम् अत्र अर्तिश्री व्लीरिणुयि क्ष्मायातां पुणौ अनेन अत्र पुकागमः भवति कित् अस्ति इति कृत्वा धातोः अनन्तरम् आगच्छति तर्हि ग्ला योगः पुक् योगः इ इति स्थितिः ग्लायोगः पकारः योगः इकारः तर्हि योजनं कृत्वा ग्लापि इति नूतनसनाद्यन्तधातुः निष्पन्नम् तदनन्तरं शप् विधीयते कर्त्रके सार्वधातुकप्रत्यये ग्लापयति इति योयवायामः सन्धि ग्लापयति इति रूपम् तथैव तथैव अन्यानि रूपाणि अपि म्लै म्लापयति ध्यै ध्यापयति गै गापयति रै रापयति खै कापयति इति धन्यवादः अग्रे पुष्पा भगिनी युक् आगमः पठति वा विद्या भगिनी तस्मात् प्रश्नद्वयं पुनः तत् पुक् इत्यत्र कित् विषये आगमः कित् चेत् तत् आद्यन्तौ टकितौ इत्यनेन परे अन्ते आगच्छति इति तु एकम् <sassy> तत्र कित् अस्ति इति कृत्वा गुणकार्यस्य विषये किमपि चिन्तनं न कर्तव्यम् इति वा हा अत्र धातोः धातोः अन्ते आगच्छति परन्तु अत्र कित् कित् इत्यस्य यत्र आगमः अस्ति आगमः अत्र यत्र कुत्रापि आगमः भवति यदि प्रत्ययस्य आगमः चेत् प्रत्ययस्य स्वभावं स्वीकरोति अत्र धातोः आगमः इति कृत्वा धातोः स्वभावम् इत्युक्ते धातोः भागः भवति अतः oh. अत्र अत्र किमपि वैशिष्ट्यं नास्ति अत्र कित, कित् कित् इत्यनेन तत्र कित्वं धातोः धातोः उपरि कित्त्वं न अध्यारोपयति अत्र तत्तु एव प्रथमप्रश्नः द्वितीयं तु अत्र आदेश उपदेशेश् इति तत्र उपदेशे इत्यस्य किं किमपि uh, सनाद्यन्त दातवः इत्यनेन एव तत्र आदिदेशकधातुः लभ्यते किल हा अत्र दत्तमस्ति उपदेशे उपदेशे इति दत्तमस्ति अत्र प्रत्ययस्य क्षम्यताम् अत्र किञ्चित् ध्वनिः अस्ति बहिः अत्र यदा अत्र ग्लै इति धातुं स्वीकुर्मः ग्लै योगः निच् इति अस्ति तत्र ग्लै इति धातुः उपदेशावस्थायाम् अस्ति इति कृत्वा तत्र आदेचोपदेशे शिति इत्यस्य प्रसक्तिः अस्ति किमर्थं चेत् तत्र निच् इति नास्ति परन्तु भवतः प्रश्नः अस्ति निच् यदि यदि यदा हि वयं योजयामः तत्र सनाद्यन्तधातवः दिनेन औपदेशिकधातुसंज्ञा आगच्छति इति परन्तु हा यदा वयं तत्र यङ्ग् लुगन्तप्रसङ्गे वयं दृष्टवन्तः तत्र धातुतः यदा हि यङ्ग् प्रत्ययः विहितः भवति समान समानपरिस्थितिः अस्ति अत्रापि समानपरिस्थितिः अस्ति यद्यपि तत्र औपदेशिकधातुसंज्ञा आगच्छति तथापि तत्र औप् क्षम्यतां यद्यपि तत्र आतिदेशिकधातुसंज्ञा आगच्छति सनाद्यन्तधातव इत्यनेन तथापि तत्र औपदेशिकधातुसंज्ञा अस्ति तत्र भू आदयो धातवः इत्यनेन औपदेशिकधातुसंज्ञा अपि अस्ति तस्मिन् विषये महोदय मातृभिः सह चर्चां कृतवान् सा एव उक्तवती अत्र संज्ञाद्वयं भवति इति कृत्वा एव अत्र आदेश उपदेश इति कार्यं भवति तत्र अन्तर्निहित ग्लै इत्यस्मिन् तत्र भू आदयो दातवः इत्यनेन धातुसंज्ञा अस्ति इति कृत्वा तत्र कार्यं भवति इति चेत् तदेव तर्कः अस्ति चेत् तत्र सर्वदा तादृशं संज्ञाद्वयं भवति चेत् उपदेशे इत्यस्य आवश्यकता एव नास्ति इति भाति हा सर्वदा संज्ञाद्वयं न भवति तत्र कुत्रचित् तादृशं भवति यत्र ग्लैयोगः इदानीम् अत्र तप्रत्ययः अस्ति चेत् तत्र संज्ञाद्वयं नास्ति अथवा तव तु प्रत्ययः अस्ति चेत् तत्र संज्ञाद्वयं नास्ति तत्रापि कार्यं करोति यत्र संज्ञाद्वयम् अस्ति चेदपि यावत्पर्यन्तं तत्र औपदेशिकधातुसंज्ञा अस्ति तत्र कार्यं करोति हा इति चेत् तत्र आदेश यत्र एजन्त् धातवः सन्ति तत्र सर्वत्र आदेशोपदेशे शिति इति कार्यं भवति इति कृत्वा औपदेशिक अपि च आतिदेशिक अवस्थायां अवस्थाद्वयेपि तत्कार्यं भवति इति कृत्वा उपदेशे इत्यस्य इति पदस्य आवश्यकता अस्ति वा अस्ति न चेत् किं भवति यदि न दत्तं चेत् तत्र तप्रत्ययः तप्रत्ययः अस्ति तत्र तप्रत्ययस्य यदि परिवर्तनं यदि एजन्तदातुः अस्ति तस्य परिवर्तनम् अभवत् परिवर्तनम् अभवत् चेत् तत्र उपदेशे इति न दत्तं चेत् तत्र आदे च उपदेशशितिः इत्यस्य कार्यं न भवति खलु यदि ग्लै योगः त इति अस्ति चिन्तयतु यदि यत्र ग्लै इति कथञ्चित् ग्ला ग्ला अभवत् केनापि सूत्रेण तर्हि ग्ला इति अस्ति चेत् तत्र आदे च उपदेशशिति इत्यस्य कार्यं न भवति अथवा ग्लै इति कथञ्चित् ग्लि इति भवति चेत् अथवा किमपि परिवर्तनं भवति चेत् तत्र कार्यं न भवति अग्रे यदि वयं क्री इति दातु वयं क्री इति दातु वयं स्वीकुर्मः क्री इति दातुः क्री इति दातुः तत्र अचोयन् इति सूत्रेण क्रै इति भवति यदा हि निजप्रत्ययः विहितः भवति क्रै तर्हि इदानीं क्रै इति औपदेशावस्थायां एकनिमिष भगिनि क्रै इति औपदेश उपदेशावस्थायां नास्ति तर्हि आदेश उपदेशिति इत्यस्य कार्यं न भवति तत्र यथा नी नै इति भवति तदा यदा नै इति भवति तस्मिन् सन्दर्भे आदेश उपदेशुद्धिस्य कार्यं न भवति इति अस्तु इदानीं इदानीं भगिनी पठति वा कः युक् युक् आगमः अपवादः शाखा सा, सा वया, वया, वया, वेपाह युक् शो चो सो हे व्ये वे फै इत्येषां धातूनां युक् आगमो भवति निचिप्र परे अनुवृत्तिसहितसूत्रं श चा सा हा वेपाम् अङ्गानां युक् णौ तत्र um, uh, ुक् न भवति युक् एतत् आयाति ये ये सर्वे एजन्ट् दातवः ते सर्वे युक् या आयाति पयाति अत्र केवलं धातुः वदतु अनन्तरम् अन्तिमरूपं वदतु सम्पूर्णतया वदनस्य शाययति चो तु छेदने चाययति सो सो तु सा इति समापनं करोति स्या न सा तु अत्र कथम् आयाति मम ना अहं नाम तु न जानामि सो सा इति आयाति कथं मम तत्र जानाति एव दात्वादेशः सः इत्यनेन सा गच्छति सात्वादेशः अस्तु दात्वादेशः सो तत्तु सायति सायति हेय् इति ह्वाययति व्ययि व्याययति व्यय् वायति पै पाय पाययति शो पा पाने पाययति द्वे अपि सम समान अस्ति पायति द्वे द्वित्वं तत्र द्वि अर्थम् अस्ति एकमस्ति शोषणे अनन्तरं पाने पाने अस्तु वा अस्तु धन्यवादः भगिनि इदानीम् अत्र इकारान्त ईकारान्तधातवः वयं जानीमः अत्र अचोयन् इति कार्यं करोति तर्हि अत्र रूपाणि समानानि भवन्ति नी इति धातुः अस्ति चेत् नय् इति भूत्वा तत्र नाई इति धातुः अनन्तरं यथा पूर्वं नाययति इति रूपम् एवमेव अत्र उकारान्तदातवः उकारान्तधातवः अत्रापि अचोयन् इति कार्यं करोति तर्हि भू इति धातुः अस्ति चेत् तत्र भावयति इति रूपम् <laughs> अनन्तरं ऋकारान्त ऋकारान्तधातवः अत्रापि अछोयन् इति इत्यस्य कार्यम् अत्र कृ इति धातुः अस्ति चेत् कारयति हा हृ हारयति तृ तारयति <laughs> इति एतादृशरूपाणि अत्र तृयोगः निच् इति अस्ति चेत् तत्र अनन्तकृष्णमहोदय भवान् वदति वा अत्र तृयोगः निच् अत्र सामान्यतया अत्र दीर्घ ऋकारान्तधातुः अस्ति चेत् अन्य सूत्रं सूत्रस्य प्रसक्तिः अस्ति वा महोदय तस्य प्राक् तत्र पै इति धातुः अस्ति किल महोदय तत्र पा तर्हि तत्र युकागमः भवति तत्र पा इति पा इति भिन्नधातुः वा सूत्रे केवलं पै इत्येव उल्लिखितम् Hmm. आ आ, आ, आ, तु पा भगिनि अत्र सूत्रे अस्ति सर्वत्र आत्वं तत्र आत्वं भूत्वा तत्र कार्यं भवति तर्हि पा इति अस्ति पा इत्युक्ते पैदातु पादातु तर्हि न स्वीकरणीयं वा तत्र एजन्तधातूनां कृते एव युकागमः एवं नास्ति वा सर्वत्र धातवः सूत्रे आकारान्तं दत्तं परन्तु धातुः यदा उल्लिखितं तत्र सर्वत्र एजन्तधातुः एव हा एजन्ट् दातुः परन्तु तत्र सामान्यतया तत्र अदेशे उपदेशे शिति इति सूत्रेण अत्वम् आगच्छति अनन्तरं युक् आगमः तर्हि धातु द्वयं सन्ति पै अपि पा इति वा वस्तुतः धातुत्रयं तत्र अन्यत् दातु अन्यत् पा धातुः अदादिगणे पाति इति रूपम् अस्ति अस्ति तत् हु, रक्षणे तत्र तत् अयं दातुः अस्मिन् सूत्रेण अन्तर्गतः तत्र oh. लुक् लुक् आगमः भवति तत्र oh. वार्तिकेन uh, तत् अर्थं किं भगिनि कस्य पाति इति uh, रक्षणार्थी पा, पा, तर्हि अत्र ऋकारान्तदातु अनन्तकृष्णमहोदय वदतु ख्यां किमपि न सङ्ख्यां न जानामि सम्यक् सम्यक् तत्तदेव मम प्रश्नः सम्यक् सम्यक् अत्र सामान्यतया दीर्घऋकारान्तधातुः अस्ति चेत् तत्र ऋतधातोः यत्र गुणस्य प्रसक्तिः नास्ति तत्र द्वितधातोः इति कार्यं करोति परन्तु अत्र निच् प्रत्ययः अत्र अर्धधातुकप्रत्ययः अत्र गुणस्य प्रसक्तिः अस्ति तर्हि अत्र सार्वधातुकार्धदातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति परन्तु अत्र विशिष्टसूत्रम् अचोयनिति इति सूत्रं सार्वधातुकार्धदातुकयोः इति सूत्रं प्रबाद्य अत्र अचोयन् इति कार्यं करोति वृत्तिः भवति हा तावदेव अस्तु इदानीम् अत्र हलन्तदातुः अत्र हलन्तदातवः यत्र सन्ति तत्र श्रेणीकरणं कथं भवति इति चे तत्र उपदायां कः वर्णः अकारः वा इकारः वा उकारः वा ऋकारः वा इति अनन्तरम् अवशिष्टदातवः इदानीम् अत्र उपदायां ह्रस्व अकारः अस्ति चेत् अतुपदायाः इत्यस्य कार्यं तर्हि बालसुब्रह्मण्यं महोदय भवान् अत्र अतुपदादा अदुपदादातवः इति पठित्वा एकम् उदाहरणं स्वीकृत्य वदतु अस्ति वा महोदय बालस्कुरो क्षम्यता अतुबधाय दातवः अत्र अतुबाया इति सूत्रेण उपधा दीर्घ वृद्धित्वं भवति उदाहरणरूपेण पट, योग ङीच् अकारस्थाने वृद्धित्वम् आ, आ पाठि योग छ यथा पूर्वं पाठयति इति अन्तिमरूपं भवति अथ अकारः उपदा अस्ति चेत् एवं वृद्धिः भवति वृद्धिः भवति अत्र पाठी योग आ न एकवारं न द्विवारं न अत्र चिराविगणीयधातुः नास्ति अत्र पट्टिति औपदेशिकधातुः तर्हि एकवारमेव नियति पाटी पाटयति हा अस्तु अत्र इदुपतदातवः इति अस्ति चेत् तत्र लक्ष्मीभगिनी वदति वा अत्र किं भवति च इत्यनेन उपधायां लघु इकः गुणः अत्र उदाहरणं क्षम्यतांतया नास्ति केवलं तत्र निच, निच् निजुरूपम् आं भगिनि लिख् योगः निच् तत्र गुणकार्यं भूत्वा लेख् इति आगच्छति अनन्तरं निच् योजनेन लेखि इति निजंत निजंत निजिंधा लेखयतीज्त तथा छिद्धादापाठे युप धाव स क्रमो धन्यवाद अस्त अन शुकव महोदय भावयती इति क्रियापदं स्वीकृत्य वाक्यं वदति वा निजन्तवाक्यम् um, लेखयति आचार्यः बालकेन पाठं लेखयति वदतु किञ्चित् सम्यक् सम्यक् सम्यक् <laughs> आचार्यः <laughs> आचार्यः इति प्रयोजक किमिति क्षम्यतां भवतु न अत्र तदेव प्रतिपादयतु इति तावदेव हा अस्तु आचार्यः बालकेन पाठकं पाठं लेखयति इत्यत्र आचार्यः इति प्रयोजककर्ता बालकेन इति प्रयोज्यकर्ता प्रयोज्यकर्ता पाठम् इति कर्मपदं लेखयति इति निजन्तरूपमस्ति अत्र लेखयति इत्यनेन कर्तुः साक्षात् न, साक्षात न अभिहितम् इति कृत्वा अनभिहिते तृतीया कर्तृकर्मणोस्तृतीया अनभिहिते इत्यनेन प्रयोज्यकर्तुः तृतीयायां भवति सम्यक् अस्तु अत्र धन्यवादः महोदय अनन्तरम् अत्र इदानीमेव मया किञ्चित् अवगतं तत्र सर्वे निजन्त अंगाह अदन्ताः एव जन्ताङ्गाः अदन्ताङ्गाः नास्ति नि यदा हि निच् कृते योजयामः चेत् तत्र इकारान्ताङ्गन्तरं तत्र आगच्छति तदा सर्वत्र तत्र य इत्येव अकारः एव अन्ते तिष्ठति इति कृत्वा यदा वयं सिद्धतिङ्प्रत्याः योजयामश्चेत् सर्वत्र यद्यपि धातुः अजन्त अजन्तधातुः वा हलन्तधातुः वा यत्किमपि भवतु विशिष्टधातुः अपि भवतु तत्र सर्वे अदन्त निजन्त अन्तधातवः यदा शप् योजयामश्चेत् अदन्ताः एव तत्र अदन् अदन्ताङ्गं हा अदन्ताङ्गं भवति इति कृत्वा सिद्धतिङ्प्रत्ययः अदन्तसिद्ध तादृश तिङ्प्रत्ययस्य चिन्तनमेव अत्र अस्मिन् आं सम्यक् बहु सम्यक् महोदय सम्यक् सम्यक् सम्यक् अस्तु अन्य अन्यकोऽपि प्रश्नः महोदय नास्ति भगिनि तावदेव अस्तु सम्यक् तद् इदानीमेव अवगतं तत्र सम्यक् यदि वयं केवलं तत्र पठित्वा अग्रे गच्छामः चेत् तत्र तस्य प्रयोगः न भवति यावत्पर्यन्तं तत्र रूपाणि कथं भवति सर्वाणि रूपाणि इति न चिन्तयामः अस्तु अग्रे उदुपददातवः अपि समान समानकार्यम् अत्र पुकन्तलघुपदस्य च इति कार्यं भवति बुद्धातुः बोधयति इति अनन्तरं ऋदुपददातवः तत्रापि उपदायां इक् लघु इक् इति चेत् पुकन्तलघुपदस्य च इत्यस्य कार्यं तर्हि कर्षयति कृष्दातुः कर्षयति अनन्तरम् अग्रे शेषदातवः तत्र किमपि विशिष्टकार्यं नास्ति यतोहि अत्र उपादायं ह्रस्व अकारः अपि नास्ति इक् नास्ति तर्हि बुक् इति अस्ति चेत् बुक्कयति एद् इति चेत् एदयति तावदेव अत्र कोऽपि प्रश्नः अस्ति वा अग्रे वा तु वा द्वे अपि द्वे अपि कोऽपि नास्ति अत्र द्वे अपी hmm? द्वे एव सन्ति इति न जानामि अत्र द्वे एव प्रदर्शितं तत्र कथं कार्यं भवति इति प्रायः अन्यानि अन्ये दातवः अपि सन्ति अत्र केवलं उदाहरणार्थं प्रदर्शितं यदि उदुपददातवः इत्युक्ते तत्र केवलं दातुद्वयम् इति नास्ति अत्र एतादृशमेव भवति सर्वत्र इति प्रदर्शनार्थं अस्तु इदानीम् द्वितीयं करपत्रम् उद्घाटयन्तु विशेष अजन्तदातवः इति तत्र इदानीम् अत्र चन्द्रशेखरमहोदय हलन्तदातव न अजन्तदातवः द्वितीयं करपत्रम् अजन्तदातवः अस्तु चन्द्रशेखरमहोदय पठति वा अकारान्तदातवः एजन्तदातवः अकारान्तदातवः एजन्तदातवः तत्र सर्वं पठनीयं वा संक्षेपेण संक्षेपेण वक्तुं इच्छति वदतु महोदय अस्तु अत्र एतावता पूर्वं साधारणदातवः तु आदेशे उपदेशयिष्यति इति कार्यं करोति तत्र तदनन्तरं अर्तिह्री ब्ली रिूयि क्षमा यातां पुग्नौ इत्यनेन पुगागमा भवति इदानीं किञ्चित् तेषाम् अप तस्य अपवादः सन्ति प्रथमं तु शाक्षा युक् आगमः अस्ति शाक्षा साह्वा आह्वाह्तां युक् इति तत्र पुक् इत्यस्य अपवादः युक् भवति तदपि दृष्टम् अस्माभिः तत्र पै इत्यनेन इति सूत्रम् इति धातुः पै शोष शोषणे इति सूत्रं पाययति इति दृष्टम् इदानीं अन्यवार्तिकमस्ति लुगागं लुगागमस्तु तस्य वक्तव्यः इति पा इति धातुः पारक्षणे इत्यस्य इदानीं तस्य लुक् आगमः भवति तदर्थं तदपि पुकागमस्य अपवादः पा योगः लुक् योगः अणिच् तत् पाली इति आदित्यष्कधातुः पालयति इति भवति वाक्यं वदति वा महोदय कोपि वाक्यं राजा पालयति देशं पालयति इति अस्तु धन्यवादः अग्रे अत्र हेमा भगिनी हेमा भगिनी अस्ति वा महोदय कुत्र पठनीयम् अत्र वै इति धातुः अस्ति वै धातुः वै शोषणे आम् अयं वै धातुः निचि परे आत्वम् इति कृत्वा वा भवति तदा अतिः रिक्ष्णुक्ष्माया तां पुनौ इत्यनेन पुगागमः तर्हि वै शोषणे प्रेरणार्थे निचि भूत्वा वै योगः णिच् एजन्तधातुः अस्ति कृ इति भवति अतः वै वा भवति वा इ इदानीं तत्र पुकागमः भवति अर्तिहिरि अनेन सूत्रेण तर्हि वा योगः पुक् वापि इति नूतन निजन्तधातुः तदनन्तरं सन्धिकार्यं भूत्वा वापयति इति भवति वै धातुः कम्पयति इत्यस्मिन् अर्थे पुक्स्थाने स्थाने जुक्कागमं तर्हि अत्र एकस्मिन् पक्षे पुकागमः अन्यस्मिन् पक्षे जुकागमः भवति यथा पूर्णं महोदयेन उक्तं तत्रापि पुक् अपि लुक् अपि इति आगमद्वयं भवति तथैव अत्रापि पुकागमम् अपि च जुकागम्य इति अत्र वायोगः इ यदि जुकागमेन तत्र वायोगः जुक् योगः इ इति भवति तत्र वाजी इति नूतनानि जन्तधातुः अपि च रूपं भवति वाजयति तर्हि वापयति इति पुकागमेन अपि च जुकागमेन वाजयति इति वाजयति तत्र वाजयति इति स्वीकृत्य वाक्यं वक्तुं शक्नोति वा वाजयति इत्युक्ते कम्पनार्थे भवति वा वानरेण वृक्षः वाजयति इति भवति वाजयति भवतु तत्र वैदि धातु अकर्मकः वा इति द्रष्टव्यं तस्य विषये मम तादृश स्पष्टं नास्ति महोदय तत्र अकर्मकद्विकर्मकर्म तत्र किञ्च अत्र अकर्मकधातुः अस्ति अतः भवत्याः वाक्यं सम्यक् एव वृक्षः वाजयति अकर्मकधातुः अस्ति वै शोषणे कम्पनार्थे अपि वै अकर्मकः एव त्रयः स्यात् द्वितीयां भवति किल अकर्मकः अस्ति चेत् तत् सत्यं सत्यं परन्तु अत्र परन्तु अत्र अत्र प्रयोजकर्तुः नास्ति अत्र प्रयोजकर्तुः एव नास्ति वानरः एव वाजयति इति प्रयोजकविषये भवति खलु पुनः महोदय स्य विषये सकर्मत्वं भवति परन्तु अत्र भगिन्याः वाक्ये तत्र वृक्षः इति एक एकमेव तत्र कर्तृपदमस्ति एकः कर्तृपदमेव पदं तर्हि अत्र तत्र सकर्मकः अकर्मकः वृक्षः वान कर्मकारः तत्र अकर्मकः नास्ति वानरेण वृक्षः कल्पयति इति साधुवा साधुवा इति चिन्तनीयं तत्र निच् किमर्थं निच् हा अत्र अत्र वाक्यं कथं भवति इति चिन्तयामि चेत् अत्र वानरः वृक्षं वाजयति इति किमर्थं चेत् अत्र वाज् वै इति धातु अकर्मकदातुः अस्ति परन्तु प्रसंगे तत्र <laughs> प्रयोज्यकर्तुः सकर्मकः भवति वृक्षः सम्यक् सम्यक् तदेव वृक्षं वानरः वृक्षं वाजयति इति वाक्यं हा इदानीं सम्यक् अस्ति भगिनि वायुः वृक्षं वाजयति वदामश्चेत् तत्र सम्यक् वायुः इति प्रयोजककर्ता वृक्षम् इति प्रयोज्यकर्ता वाजयति इति निजन्त लक्ष्मीभगिनी किं चिन्तयति सम्यक् वा अकर्मकधातुः अस्ति चेत् वयं पठितवन्तः पुष्पवनि एकनिमिषे तूष्णीं भवतु लक्ष्मी भगिनी अकर्मकधातुः चेत् प्रयोज्यकर्तुः द्वितीयविभक्तिकत्वं भवति सामान्यतया तृतीया भवति विशेषसूत्रेण द्वितीयाविभक्तिः भवति अतः वानरः वृक्षं वाचयति इति अहं चिन्तयामि सम्यक् तदेव अहमपि आम, चिन्तयामि अस्तु अस्तु इदानीम् अत्र अग्रे अग्रे बालसुब्रह्मण्यमहोदय भवान् पठति वा ला तुः अधादिगणे ला दातुः लट्लकारे लाते इति रूपम् अर्थः लभते स्वीकरोति इति निचपरे स्नेहविपातने विकल्पेन ली धातोः धातोः लुक् च ली धातोः ला धातोः लुक् आयाति तत् अभावे अभावे पुक् एतानि द्वयोः नास्ति चेत् पुग्गागमः तर्हि उदाहरणं स्वीकृत्य ला, ला, ला, ला योग निजन्त विकल्पेन लुक् योग णिच् तस्मात् ला लुक् योग इ लालि इति निजन्तदातु सनाद्यन्तधातुः यथा पूर्वं लालयति इति नियुक्त अन्तिमरूपं अभावे लाप् लापी ला ला लापयति इति रूपं तर्हि अत्र रूपद्वयं लालयति अपि च लापयति Oh. द्वे अर्थं सम्यक् अस्ति द्वे अर्थमस्ति वयं जानीमः माता शिशुं लालयति तत्र लापयति लापयति तु तत् अर्थं दीयते तदपि समानार्थे एव समानार्थे एव न न न अत्र अत्र क्षम्यतां क्षम्यताम् अत्र तु सूत्रे दत्तमस्ति स्नेहविपात विपातने इति स्नेहविपातनार्थ अत्र तत्र अग्निः घृतं लापयति इति अग्निः घृतं लापयति तैलं लापयति इति तादृशं वाक्यं लुक् इति आगमः इति इत्यपितमस्ति साधारणतया वयं लुक् इत्युक्ते तत्र लोपः इत्येव यत्र अत्र अङ्गस्य कुत्र अस्ति सप्तमाध्याये अस्ति खलु तदर्थं तत्र आगमः वा आदेशः वा भवति तत्र लुक् इत्यत् अस्ति तदर्थम् आगमः आमां सप्तमाध्याये अस्ति इति कृत्वा आगमः अङ्गकार्यम् अङ्गस्य अधिकारस्य अधिकारे अस्ति इति कृत्वा धातोः इत्यस्य अधिकारे चे अस्ति चेत् तत्र प्रायः विकरणप्रत्ययः लुक् भवति इति न प्रत्ययस्य प्रत्यस्य खलु प्रत्यस्य एव प्रत्ययस्य प्रत्ययस्य अस्ति चेत् धन्यवादः अत्र अग्रे लाति विषये लाति इति कुशान् लाति इति कुशलः इति भवति खलु आचार्यः कुतः कुशान् लाति इति कुशलः इति भवति कुशान् लाति इति धर्मान् लाति इति तेनैव कुशलः इति पदस्य ततः एव आगच्छति इति मया तत्र कुत्रापि पठितं वा श्रुतं वा चिन्तयामि लाति इति भगिनी पृष्टवती लाति इत्युक्ते किम् इति चिन्तयामि ओ अस्तु अस्तु अग्रे कुत्रचित् ध्वनिः अस्ति कस्य गृहे अत्र पुष्पा भगिनी मम नास्ति मम नास्ति लक्ष्मीबन्दि भवती ह्रस्वः इत्यनेन ये धातवः मितः तेषाम् उपधायां स्वरः ह्रस्वः भवति निचिप्रत्यये परे मितां ह्रस्वः मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति निच् प्रत्यये परे मित् कश्चन अन्तर्गणः अत्र अनुवृत्तिसहितसूत्रमस्ति मिताम् अङ्गानाम् उपाधायाः ह्रस्वः नौ अत्र वयं जानीमः गम् धातुः गम धातु गमयति इति रूपं इच्छामश्चेत् तत्र मितां ह्रस्वः इति सूत्रेण गमयति इत्यस्मिन् इत्यस्य स्थाने गमि इति आतिदेशिकधातुः आगच्छति तथा गमयति एव णिच् रूपमागच्छति अत्र अमन्ताः इति कृत्वा तत्र गम् इति धातुः अमन्तः अस्ति इति कृत्वा तत्र मितां ह्रस्वः इति कार्यं करोति यत्र अमन्ताः सन्ति अत्र अस्मिन् सूत्रे अत्र ये धातवः मित् इति अन्तर्गणे सन्ति तेषां कृते मितां ह्रस्वः इत्यनेन उपादायां यः स्वरः अस्ति तस्य ह्रस्वत्वं भवति नौ परे निष्प्रत्ये परे तर्हि अत्र भुवादिगणे घटादयः इति गणः अस्ति तस् तस्मिन् चतुश्चत्वारिंशत् चतुश्चत्वारिंशत् धातवः घटादयो मितः इत्यनेन अपि च चुराविगणे न्यपादयः इति अन्तर्गणः तत्रापि दातवः मितः तर्हि तत्र ण्यप यम रम चल छि इति दातवः तत्र सर्वत्र सर्वत्र ह्रस्वत्वं भवति अग्रे अत्र शुकवनमहोदय भवान् अत्र ण्यप इति धातु धातुतः पठति वा तत्र अन्तिमरूपं कथं भवति धातुः अथ उपादायः इति सूत्रेण उपादायं चित्रस्य ह्रस्वाकारस्य वृद्धिः भवति न्यापि इति निजन्तधातुरूपं भवति इदानीं मितां ह्रस्वः इति सूत्रेण ण्या इत्यस्य आकारस्य दीर्घाकारस्य ह्रस्वं न्यपि इति पुनः परि परिवर्तितनिजन्तधातुरूपं भवति शप् योजयित्वा ज्ञपय इति रूपं भवति अनेन ज्ञपयति अपि च प्रायः एतत् उभयपदि इति कृत्वा ज्ञापयते इति रूपं भवति ज्ञपयति ज्ञापयते एवमेव एवमेव यम् यम इति धातुः यमयति यमयते चः इति धातुः चहयति चहयते रः इति धातुः रहयति रहयते बल इति धातुः बलय बलयति बलयते ची इति धातुः चयति चयते इति रूपं प्राप्नोति अग्रे अपि पठतु महोदय हा तदा केचन धातवः अर्थविशेषे मित् भवन्ति अत्र ज्ञापयति ज्ञापयति तत्र भेदः कः भवति इति एकवारं अग्रे आयासति अत्र ज्ञामारणतोष्णी अस्तु तदा केचन धातवः अर्थविशेषे मित् धातवः भवन्ति यथा स्मृ धातुः यदा आध्यायनार्थे तदा मित् स्मरयति अन्यत्र स्मारयति इति भवति अर्थविशेषः अध्ययनार्थे अस्ति चेत् तत्र स्मरयति इति रूपं भवति अन्यत्र तत्र मितामहस्वः इति सूत्रस्य प्रसक्तिः नास्ति नास्ति कृत्वा स्मारयति इति भवति एवमेव दृ इति धातोः भयार्थे धरयति इति भवति अन्यत्र विधा विदारणार्थे धारयति इत्येव रूपं तिष्ठति अत्र स्मारयति इति वदनेन तत्तु स्वार्थेण स्मारयति न्यजिन्ते महोदय किन्तु अध्ययनार्थे नास्ति तदेव अध्ययनार्थे स्ब्रूधातुः उपयोगं कुर्मश्चेत् स्मरयति इति भवति एकवाक्यं वदतु महोदय स्मरयति कृते यः प्रायः अध्ययनं करोति चेत् अन्यस्य अध्ययनं करोति चेत् उदाहरणार्थम् उपाध्यायः छात्रैः स्मरयति अध्ययनं कारयति चेत् प्रायः तादृशं भवति इति अहं चिन्तयामि किमिति छात्रान् स्मरयति ओ छात्रान् अकर्मकः इत इति वा चन्द्रशेखरमहोदय आं सत्यं तत्र कर्मपदम् अस्ति खलु तद् स्मरयति इति क्रियापदमस्ति क्रिया अस्ति तदर्थं कं स्मरयति कान् स्मरयति इति बालकान् स्मरयति छात्रान् स्मरयति आम् किन्तु तत्र अकर्मकः इति कृत्वा वा बुद्ध्यर्थकः इति कृत्वा वा इति प्रश्नः अकर्मकः अकर्मकः बुद्ध्यर्थकः इति गतिबुद्धिप्रत्यवधानार्थ बुद्ध्यर्थकः अपि बुद्ध्यर्थत् शुद्धशुद्धज्ञानं नास्ति पाठं स्मरयति अत्र शुद्धज्ञानस्य विषये एव तत्र बुद्ध्यर्थकः अहम् अध्ययनार्थे अध्यायनार्थे इति दत्तमस्ति अतः अध्ययनार्थे तत् शुद्धज्ञानस्य विषयः इति अहं चिन्तयामि अध्यापनं करोति तत्र परन्तु भवतः े अध्ययनस्य तर्हि महोदय अत्र अध्यापयति इति इत्यस्मिन् विषये यदि वाक्यं निजन्तप्रसङ्गे तत्र तु शब्दकर्म इति वयं दृष्टवन्तः तत्र अध्यापकः अध्यापकः छात्रं श्लोकम् अध्यापयति इति ओ तत्र शब्दकर्म अस्ति शुद्धज्ञानार्थं नास्ति अध्यापयति अकर्मकः अपि नास्ति बुद्ध्यर्थकः अपि नास्ति शब्दकर्म इति परन्तु भवतः वाक्यं किम् किमासीत् अध्यापकः छात्रैः स्मरयति इति छात्रैः इति अत्र छात्रैः इति त्रि छात्रान् इति छात्रान् छात्रान् अत्र भवति खलु अध्ययनं करोतु इति प्रेरणार्थे वदति अस्तु अमन्तः वा अमन्तः अमन्तः घटादयः अन्तर्भूतः नास्ति तत्र विशिष्टवार्तिकं किमपि अस्ति तेन अत्र अमन्ताः तत्र जनीजृषु कुत्र कुत्रचित् अस्ति तेन वार्तिकेन अमन्ताः ते अपि मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् उपदायां ह्रस्वत्वं प्राप्नोति अग्रे अत्र कः पठति हेमाभग्नि भवती एव पठतु अत्र अस्तु महोदय ज्ञामारणतोषणनिशामनेषु मारणम् इत्यनेन हिंसा तोषणम् इत्यनेन सन्तुष्टिः निशामनम् इत्यनेन चाक्षुषज्ञानम् येषु अर्थेषु मितां द्रस्वः इत्यनेन सस्वत्वं भवति अन्यत्र दीर्घत्वं दुर्जनं सञ्ज्ञयति इत्यनेन दुर्जनं मारयति हरिं ज्ञपयति इत्यनेन हरिं सन्तोषयति रूपं ज्ञपयति इत्यनेन दर्शयति बोधयति किन्तु सूचनां ददाति इति चेत् ज्ञापयति अत्र वार्तिकं वा महोदय ज्ञामारणकोषिननि सत्यं वार्तिकं वार्तिकं hmm. तर्हि अनेन वार्तिकेन अत्र अर्थं अधिकृत्य तत्र रूपं रूपस्य भेदः भवति यत्र मारणम् इति भवति तत्र मितां ह्रस्वः कार्यं करोति तोषणम् अपि च निशामनं एतेषु अर्थेषु भवति चेत् तत्र ह्रस्वत्वं भवति मितां ह्रस्वः सूत्रेण परन्तु साधारणतया यत् वयं वदामः ज्ञापयतु इति सूचनां ददातु इति कृत्वा इति वदति चेत् तत्र मिताम्भस्वः तस्य प्रसक्तिः न भवति तर्हि तत्र ज्ञापयति इत्येव भवति mm. अत्र ज्ञायोगः मिच् अस्ति अर्तिः अनेन सूत्रेण तत्र पुकाकमः भवति अतः ज्ञापि इति नूतनदातुः <laughs> तर्हि प्रायः ज्ञापि इति अत्र उपरितन अर्थेषु भवन्ति चेत् तत्र ह्रस्वः इति भूत्वा ज्ञापयति इति रूपम् आगच्छति ह्रस्वत्वं भूत्वा ता तथैव ग्ला ग्लपयति अपि च स्ना स्नपयति इति अस्तु इदानीं स्पष्टमस्ति वा भगिनि स्पष्टमस्ति इतोपि द्रष्टव्यम् अपि च मम तत्र भवन्तः चर्चितवन्तः किल अकर्मक सकर्मक वा तस्य विषयमहं न जानामि अत्र भगिनि अत्र नत्व निजन्तम् इति एकं पुस्तकमस्ति संस्कृतभारत्याः जनार्दन जनार्दन हेगडे महोदयस्य बहु लघु लघु पुस्तकमस्ति पुस्तके एकनिमिष भगिनि तत्र बहूनि उदाहरणानि सन्ति तदपि पठितुं शक्नोति अपि च करपत्रमस्ति अपि अस्ति तत्र प्रेरणाते निच् इति अन्य व्याकरणसम्ब अन्य अन्ये व्याकरणसम्बन्धविषयाः इति अस्ति तत्र प्रेरणाते निच् इति एकं करपत्रमस्ति तस्मिन् करपत्रे अपि उदाहरणानि अपि उदाहरणानि सन्ति परन्तु तत्र निजन्त निजन्तपुस्तकं सम्यक् अस्ति तत् निजन्तम् अपि च नत्वम् इति मिलित्वा वा नो चेत् भिन्नभिन्नपुस्तकं मिलित्वा मिलित्वा नत्वं निजन्तं मिलित्वा बहु लघु पुस्तकम् अस्ति अस्तु अस्तु पश्यामि धन्यवादः पश्यामि अस्तु अपि च न्यामारणतोषणनिशाननेषु इति पात्रिका नास्ति पाणिना स्वयम् उल्लिख्यते तत्र वा धातुपाठे एव ओ अस्तु अस्तु वार्तिकमिति yes. चिन्तितवती अस्तु सूत्रसङ्ख्या नास्ति इति कृत्वा अहमपि वार्तिकम् इति चिन्तितवती धन्यवादः ah. ah, अग्रे अत्र इकारान्तदातवः अत्र अनन्तकृष्णमहोदय भवान् पठति वायः भवतु ओ अस्तु अस्तु अस्तु धन्यवादः अस्तु धन्यवादः महोदय इदानीं समापयामः वा अस्तु अस्तु अत्र गति सम्यक् अस्ति वा अथवा इतोपि शीघ्रं गन्तव्यं वा इतोपि शीघ्रं मास्तु ओ अस्तु एवं वा अहं चिन्तितवती यतोपि स्मरणे भवतु इति एव वयं पठामः अतः अहं किं चिन्तयामि इत्युक्ते यदि एकवारं गृहपाठरूपेण पठित्वा आगच्छन्ति चेत् तत्र इतोपि सम्यक् भवति इति परन्तु मन्दं मन्दमपि मन्दं गन्तुं शक्नुमः एते पाठाः प्रथमवारमेव मया अधीताः भवन्ति इदानीमेव ओ अस्तु एवं ओ अस्तु अस्तु एवं वा तर्हि पुनः पुनः कुर्मः एतत् एतादृशगतिः सम्यक् इतोपि वेगेन मास्तु इति ओ अस्तु अस्तु अस्तु अस्तु किञ्चित् अन्तं कर्तुं शक्नुमः अस्तु अस्तु ओके अपि भगिनी यदि यदि शक्यते चेत् पूर्वस्मिन् दिने नास्ति किं वदामः एवमेव किञ्चित् पूर्वमेव एतदेव कुर्मः इति वदामश्चेत् इतोपि किञ्चित् समयः लभ्यते अस्माकं कृते तादृश समयः पूर्वमेव अहं प्रेषयामि अस्तु करपत्र करपत्रीतानि भवन्ति चेत् अस्तु सम्यक् प्रेषयामि महोदय तदेव अन्य अन्य किमपि अस्तु भगिनि अन्यथा अस्तु अहं किं चिन्तितवती इत्युक्ते चिन्तनवर्गं प्रायः सर्वाणि करपत्राणि अत्र समापयामः इति कृत्वा किञ्चित् वेगेन परन्तु मन्दं गच्छामः चेत् करहे कर चिंत, चिंतन लाभकरः एव वर्ग, हा तत् चिन्तनवर्गः प्रगतवर्गः अस्ति भगिनिवर्गः सर्वे आवाम वयम तु पठितः वयं तु तत्र गीताप्रवेश गीतप्रवेशवर्गे वयं पठितवन्तः एतत् वा, सर्वम न पठितवन्तः भगिनि अत्र सूत्राणि सम्पूर्णरीत्या सूत्राणि तत्सर्वम् अस्ति अस्तु अस्तु तर्हि समापयामः धन्यवादः सर्वे धन्यवादः अस्ति